महाकाज चक्रतुण्डमहाकाजसूर्यकोटिसमप्रभा निर्विघ्नम् गुरु मे देव सर्वकार्येषु सर्वदा गणनाथसरस्वतिरविशुक्रबृहस्पति पञ्चैतानि स्मरे नित्यम् वेदवाणी प्रवर्तते गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः गुरुः साक्षात्परब्रह्म तस्मै श्रीगुरवे नमः गुरवे सर्वलोकानाम् भिषजे भवरोहिणा निधये सर्वविद्यानाम् दक्षिणामूर्तये नमः श्रुतिस्मृतिरदीपूर्णम् शास्त्रकल्लोलसङ्कुलम् विष्णुभक्तिमहाफेनम् वन्देऽहम् शौनकार्णम् सर्वोः देवीरभिष्टशापोः भवन्तु पीतले संयोरभिस्रवन्तु नः अथ प्रथमम् आण्डम् ओ ये त्रीदर्तापा विश्वारूपाणि बिभ्रतः वाचस्पतिर्बलादेशाहम् तन्वो अद्यतधातु मे वाचस्पते देवे न मनसा सह वसोष्पते निरमय मयि देवास्तु श्रुतम् आत्री इहैवाभिवितनोभे आत्रीया वाचस्पतिर्निगच्छतु मय्येवास्तु मयि श्रुतम् उपाहो वाचस्पतिरुपास्माम् वाचस्पतिरुभयता त्वाम् श्रुतेन गमे महिमा श्रुतेन निराधिः विद्माशरस्य पितरं पर्जन्यम् भूरिधायसम् विद्माश्वस्य मातरम् पृथिवीम् भूरिमत्पदम् ज्यागे परेणो नमाश्मानम् तन्वम् नृधि वेणोपर्योरातीरपद्मेषाम् स्यागृधि व्रक्षय्यः परिणश्वजाना स्फुरम् शरमद्यम् त्रिभुवम् शरोमस्मद्यामजदिद्युमिन्द्र द्याम् च पृथिवीम् चान्तस्तिष्ठतिरेचनम् एवारोगाश्रावम् चान्तस्तिष्ठतोमुञ्चदि विद्माशरस्य पितरम् पद्यन्यम् शरतपृष्ण्यम् तेनाते तम् सङ्ग्रहणम् पृथिव्यान्द्रेः निषेचनम् महिष्टेः अस्तु भाति विद्माशरस्य पितरम् मित्रम् शरतवृष्ट्यम् तेनाहते तम्वे वे शङ्करम् पृथिव्यान्ते निषचरम् वहिष्टे अस्तु बालिति विद्माशरस्य पितरम् वरुणम् शरतवृष्ट्यम् तेनाहते तम् वे शङ्करम् पृथिव्यान्ते विद्माशरस्य पितरम् चन्द्रम् शतवृष्ण्यम् तेनाः ते तम् वे शङ्करम् पृथिव्यान्ते ऋषेचनम् वहिष्ठेः अस्तु पालिति विद्माशरस्य पितरम् सूर्यम् शतवृष्ण्यम् सेनाः ते तम् वे शङ्करम् पृथिव्यान्ते ऋषेचरनम् वहिष्ठेः अस्तु पालिति यदाम् तेषु गवीन्दोर्यवधीनम् श्रोतम् एवादे मात्रम् उच्यताम् बहिर्पालिति सर्वभम् प्रदेहरम् वर्तम् मे सञ्चारीव एवादे मान्त्रम् उच्यताम् बहिर्पालिति सर्वभगम् विशीतम् देवस्ति विलम्बमुद्रस्योः दहेरेव ेमोत्रम् मुच्यताम् बहिर्वालिते सर्वकम् यथे शुकापरापदप सृष्टाधिसंवानः एवादेमोत्रम् मुच्यताम् बहिर्वालिते सर्वकम् अम्बयोः यन्त्यध्वरभृजामयोः अध्वरीयता पृञ्चतीर्मधूनापयाः अमूर्या उपयसोर्येयाभिसोर्यः सः तानो हिंवन्दध्वरम् अपो देवीरुपह्त्र कामः पिबन्ति नः सिन्धुभ्यः कर्त्वम् हविः अप्स्वान्तरमृतमसुभेषजम् अपमुतः प्रशस्तिभिरश्वाभवरसवाचिनो कावो भवध वाचिनीः आबोहिष्ठामजो हस्तारभातन महेरणाः यदक्षरथे योगः सुवत मोदहस्तस्य भाजयदेहनाः उषतीरेव मातराः तस्मानङ्गमामभो यस्य क्षयाः यदि आपो, आपो जनजभाजनः ईशाः नावालयां क्षयन्तेश्चर्षणीया ना, अपोजाः चामिभेषजम् सन्नोः देवीरभिषयापोः भवन्तु पीतरेः शयोरभिश्रयन्तु नः अप्सुमे अब सोमो अब्रवीरन्तर्विश्वाेषया अग्निम् च विश्वसम्भुवम् आपः प्रणीतभेषजम् मनुः सन्तम् वे एव ज्योक्षसूर्यम् दृशे सन्नावोधन्वन्याः श्रो सन्तनोऽप्याः सन्नः खनिद्रिमापश्रमुयाः कुम्भाहृदाः शिवानः सन्तु मालशीः तुधानं हन्ता सुभान वितिहंता बूवी आजश्रपरमे अस्तनो वह अग्ने तौर से प्राण नया दिलाहा जाह तुधाना ये की मेदिना अधेदमग्नेनो दमग्नेनो प्रतिहर्यधम् अग्निः पूरारभताम् प्रेन्द्रोः अनुदतु बाहुमान् ब्रवीहेतु सर्वो जातुमानयमस्मीत्येत्या पश्याः मते वीर्यम् जातवे न प्रणोः ब्रूभिया सर्वे परीपत्ता पुरस्तात्तायम् तव प्रब्रुहाणा उपेदम् आरभस्मजातवेदोऽस्माकार्थाय जज्ञे भूतोनोः अग्ने भूत्वायाः सुधानाम् विलाहापया त्वमग्नेया दुधानानुपरबद्धा विला दुधा इहा वरः इदम् भगजनाः सुधानाम् नदीरेण विवावहत् य इयम् श्रीयुमागभिहसतो जनाः अयम् स्तोमानागमदिमम् स्म प्रतिहर्यत बृहस्पते वशेः लब्ध्वाग्नेः सोमानिविध्यताम् या तुधानस्य सोमवशः प्रजान्नजस्व च यत्रैषामग्ने जनैवा निवेद्धगुहाः सदा पत्रिणा जातवेदः तां स्तम् ब्रह्मणा वा प्रधानो यज्ञे शतदर्शमग्ने अस्मिन् वसुपदेवोधारयन्वरोडो मित्रोऽग्निः इमादित्या उपविश्वे च देवा उत्तरस्मिन् ज्योतिषधारयन्तो अस्य देव प्रदि ज्योतिरस्तु सूर्योः अग्निरुतबाहिरण्यम् शपत्नाः अस्मदधारे भवन्तोत्तमन्नाकीरोहेमम् येनेन्द्राह समभारपयाम् सुमेन ब्रह्मणा जातवेदः तेन त्वमग्नजिहवर्धयेवम् स जातानाम् श्रेष्ठेन ऐषाः यज्ञमुतवर्त्योः वधेऽहङ्गायस्फोटमृतचित्तान्यग्ने स्वपत्नाः अस्मदरे भवन्तु तमन्नाथमधीरोह एवम् अयम् देवानामसोरोगिराहजन्यवरूढस्य राज्ञाः ततस्परिब्रह्मणाशासदानमुग्रस्य मन्योरुधिमम् नयामि नमस्ते राजन्वरुणास्तु मन्यमे विश्वम् चोग्रनिजी दृग्धम् नभस्रमन्यान् वसोहामि साकम् शतञ्जीहीवादिशरदस्तवायम् यतो वक्ता वेदम् निष्पया वृजिलम् बहु राज्ञ्यस्त्वा सत्यधन् महामुञ्चामि वरुणादहम् मुञ्चामि त्वामेश्वानराजन्हवान्वा हलस्परि सजातानुग्रेहावदब्रह्म चापौरीहिनः वषट्ते भूषन्नस्मिन् सूर्यमाहूता कृणोतु वेधाः शिश्रताम् नातप्रजाता सर्वाणिहताम् सूत बाहु चतस्रो दिवः प्रतिशश्चतस्रो भूम्या उत देवागर्भम् समीरयन्ताम् योर्णवन्धुसूतवे सुषाम्योर्णो दुवियोनिम् हापयामसि श्रया दूषणेत्तमत्तम् निष्कलेसृजा देव मांसेनपीवसेन मज्जस्वाहतम् अवै तु दृष्टिशेव नं शुनेः शरायुवत्तमेव जरायुपद्यता वितेन धीमेः रम्मियो मातरम् च पुत्रम् च विकुमारम् जरायुणाव जरायोपद्यता यथा वातो यथा मनोजथापतन्ति पक्षिणः एवात्वम् दशमास्य साकम् जरायुणापदाव जरायूपद्यता यथाजिजप्रथमपुस्तको जरा वृषापातप्रजास्तनयन्नेति वृष्ट्या अंगे अंगे समोः मृडादितन्वरजुगो धुजन्यरे ते मोजस्त्रेताङ्गेरङ्गे शोचिराश्यानन्दमस्कन्दस्त्वा भविषा विधेम अङ्कान्समङ्का विभविषा विधेमयोग्रभेत्पर्वाः स्याग्रभीता पुञ्चदीर्षक्त्या उतयाशयेनम् परुष्परु विवेशायोस्य ैरावादजायश्च सुष्मो वनस्पतीम् सजताम् पर्वतांश्च शं मे परस्मेकाय शमस्पवराय पर मे शं मे चतुर्भ्यो अङ्गेभ्यः शमस्तु तन्वे नमस्तेऽस्तु विद्युते नमस्तेस्तनयित्नरे नमस्ते अस्पर्श्माने जेनाः गौडाशेऽर्शयति नमस्ते प्रवतो नपाद्यतस्तवस्तमूहरसि मृडयाहारस्तनोभ्योमयस्तोकेभ्यस्कृति प्रवरतो नपान्नमादेवास्तुभ्यम् नमस्ते तजेतपुरुषे च गृह्णः विद्मते धाम परमङ्गुहायत्स मन्त्रे अनन्दर्निः राजिराभिः देवाश्रे नन्दविश्वयिषुम् शृण्वानाश्रयनाचदृष्णम् शामो मृणविदधे जनास्ते नमोऽस्तु देवी भगवस्तावर्जयादिष्ट वृक्षादि वस्त्रजम् महाबुध्मदिवपर्वतोद्योग्दृष्टास्ता येषा ते राजम् कन्या वधूर्निधूर्णा यम सा मातुर्बध्यताम् विहेतो भ्रातुरो पितुः येषा ते कुलरपारा चन्तामोदे परी वग्मसि यो विदृष्वा साताजेष्णः समोऽप्यात् असीतस्य अन्तःकोशमेव जामयोऽपि नह्यामि ते भगम् सं संस्त्रवन्तोस्तम् वातास्तम् परदत्रिणः इमै यज्ञम् प्रतिभो मे जुषन्ताम् संश्राम्ये हविषाजुमि इहैव श्रावणाहुते मम वर्धयता पशुदस्मिन् तिष्ठुजारिः ये नदीनाम् संप्रवन्तु क्षीराः देभम् मे सर्वैः सम्प्रावेर्धनम् संस्रावयामसि देशद्बिषः सम्भ्रवन्ति क्षीरस्य दोदयस्य ए सर्वैः सम् कावेर्धनम् संस्रा वयामसि रात्रिमुदस्त्वराजपत्रिणाः अग्निस्तुलीयोः या दुहासो अस्मभ्यमधिप्रवदौ श्रीसायाध्याहरो अस्त्रीषाग्निरुपावति श्रीशम् महेन्द्रप्रायच्छत्पदङ्गजाम् इयम् निष्कन्धं सहत इदम्बासते इदम अत्रिणाः विश्वाससभेजातानि विशाच्याः यदीनो गामम् निरद्यश्वम् विधि पूरुषम् तम् त्वाशीलेन विद्यामो यथा नोऽसो अवीरः अमोर्यायन्ति योषिरो हिरालोहीतवाससः अभ्रातरेव रामयस्तिष्ठन्तु हतवर्जसः तिष्ठा मरे निष्ठपर उदत्तम् निष्ठमध्यमे कनिष्ठिका जीतिशामनिर्मही शरस्य धमनीनाम् सहस्रस्य हिराणाम् अस्थुरिम् मध्यमानिवा साकमन्दा अलंसदा परे वशिक तावदीशरोर्बृहत्यक्रमेरय तासुकम् निर्लक्ष्यम् राम्या निरलातिम् सुवामसि अथया भद्राता निरः प्रजाया रमसि निरलानिम् सभिता सा विषक्पतो निरहस्तयो परो मित्रो जमा निरस्मभ्य मनोमतीरवाणा प्रेमाम् देवा विश्वसौभदाय यत्र आत्मनि तन्वा घोरमस्ति यद्बाह्ये सुप्रतीचक्षणे वा सर्वम् तद्वाचापहन्मो वयम् देवस्त्वाः सवितासो दजतु ऐष्यपतीम् वृषादीम् घोषेधाम्ये धमाहुता विलीढ्यम् मानोः विरन्विम् व्याधिनो माभिव्याधिनो विदन् आराच्छर्या अस्मर्विषो जीरिन्द्रपादया विश्वम् च अस्मच्छरम् सुदेहस्तायतास्याः दैवी मनुष्येष वो ममामित्रान्विध्यता योऽस्मो यो अरण्यस्त जात उत निश्चो यो अस्माभिधासति रुद्गश्च रं जीतान् ममामित्रान्निविद्यतो यः स पत्नो यो स पत्नो यश्च द्विषन्नुपादिनः देवास्तम् सर्वे धूर्वन्त ब्रह्म ब्रह्म ममान्तरम् अदाशर्भवतु मानो विदगभिपामोषश्चर्माणा विदग्निहिना द्वेश्याजा यो अद्यतेऽन्यो वधो वारूना मुदीरते युवन्तम् मित्रावरुणामस्मर्द्याः वयतम् परि इतश्च रमे कुतश्च यद्वधम् वरुणया वया इहच्छवै यो यावयावधम् शापरित्था महामस्य मित्रसाहो अस्त्रितः न यस्य हन्यते सखा न जीयते कदाचना स्वस्तिधा विशाम् वतिर्मित्रहावीरुधो वशी गृहेन्द्रः पुरहेतुन सोमपा भयङ्करः विनरिन्द्रमृधो जहिनीचारच्छतन्यतः अघमङ्गमया तमोजोऽस्ताभिराश विरक्षो विमृतोहि विभृत्रस्य हनोहोरुद पिमन्युमिन्द्रवृत्रहन् मित्रस्याभिदासतः अपेन्द्र द्विषतो मनो वसिद्याहारोयम् इमाक्षरच्छवरी योजावयावधम् अनुसूर्जग्राजताम् हृद्योतो रोहीतैर्वर्णैर्धीर्घायित्वारय लद्भे यथायमारमाशतपो अहरितोभुवद् ध्यारोहिणीर्देवत्याहिणीः रूपम् रूपम् वयो वयस्ताभिष्पापरी लद्भति सुकेषु देहरिमाणम् रोपनाकाःसु तद्भति अथो हारिद्रवेषु ते हरिमाणम् निरध्वसि नक्तम् जाता रामे कृष्णे अशिक्मिता इदम् रजय रजय विलासम् पलितम् च रजत् विलासम् च पलितम् च नितो नार आत्वा सो वीरताम् वर्णपराः शुक्रादी पातय असीतन्ते तव असिग्निजस्य औषधे निरितोनादयापृषत् अस्थिजस्य किलासस्य तमोजस्य जयत्वमी दूष्यागतश्च ब्रह्मालक्ष्मश्वेतमालीरम् सुवर्णो जातः प्रसमस्तस्य त्वम् वित्तमासिथसुरीविता रूपम् च क्ले वनस्पतेन आसुरीचक्रे प्रथमेदङ्गिलाभमिदङ्गीलासनाशलम् अनिहीनविलासम् सरोपाशत्वजम् सरोपानामा दे माता सरोपो नाम दे पिता सरोपर्तमोषधेता सरोपमिदम् क्रेधि श्यामाशरूपम् करणे पृथिव्याध्युद्भृता इदमंशप्रसादमाः रूपाणि कल्पया यदग्निरादर्हत्वना तत्र राहुः परमम् चरित्रम् सरसम् विद्वान् परिवृङ्घिरक्मन् यद्यर्जरे यदि वाशेषु विशिष्टकल्यैवारे नामादिह यतस्तदेव सरस्तम् विद्वान् परिवृङ्घिरक्मन् यदि शोको यदीवाभिशोको यदीवाराज्ञावरुणस्यासि पुत्रः रूरुर्नामाः सेहस्य देवसदस्तम् विद्वान् परीरन्धिरग्मन् नमः शीताय तक्मने नमो रुराय शोचिषे कृणोमि योवन्येत्युनोभयत्युरभ्येति तृतीयजगाय जा, नमो अस्तु तक्मने एतावसपदस्तु हेतिदेवासोऽसत् आये अश्मायमस्य रथा सकासामस्मभ्यमस्तु राजः सखेन्द्रो भगस्त्वभिता चित्रराधाः यूयन्नः प्रवतो न पान्मरोतः सो यजसः श्रम् यच्छादसप्रथाः सुषूदत मृणत मृडयाः हस्तमो भोमयस्तोकेभ्यस्कृति अमोः पारे पृथात्मस्त्रिशब्दानिद्यवः आसाहम् जराजो धर्मजमक्ष्याः वीररामस्य भारः पाणिपन्थिनाः विश्वेतुकन्त्रीविनाः गमकविभरति विश्वः पुनर्भुवा मनो सवृद्धा घायवाः ग्धायवाः प्रेतम् पादौ प्रस्फोटम् महरतम् प्रणतो गृहा इन्द्राण्ये तु प्रथमा यापोधिता पुरः उपप्रागाः देवो अग्निरक्षो हामीतनः दहन्नपद्वयादिना यातुधानाम् दह किमे दिनाः प्रतीदहयातु धानाम् प्रतीदेव किमे दिनाः प्रतीते कृष्णवर्मने सन्दहयातु धान्याः या शापानेन या सम्मूरमादहे व्यादस्य हरणाय जातमाहारेभे लोकमत्तु सा पुत्रमत्त्वजासुधाने स्वसाहारमुत मत्यम् अधा विलोलिकेश्वो विघ्नता धान्यो विदृतम् यन्तापराय्याः अभीवतेन मणिनादेनेन्द्रोऽवार्धे अभी तेनास्मान्द्रम् बृहस्पतेभिराष्ट्राय वर्धय अभिवृत्य सपत्नानभिजानो अरादयः अभिप्रेतन्यन्तम् निष्ठाभिजोनोः दृश्यति अभित्वा देवस्तविदाभिसोमो अभिवृधत अभित्वा विश्वाः भूतान्यभिवर्तो यथा सति अभिमन्त्वाभिमस्तपत्मक्षयो मणिः राष्ट्राय मह्यम् बध्यताम् सपत्नेभ्यः परा भुगे सोऽनुयोगादिरम् महामकम् वचाः यथाहम् शत्रोदाहन्यः स्ववत् रक्षजभिराष्टो विषास हि यथाहमेषाम् विजलस्य च विश्वेः देवावस गोरक्ष देवमुतादित्याजाकृतयोजमस्मिन् मेमंसनाःभिहृतवान्यलाहाभिर्मेमम् प्रापौरुषे योवधोजः ेवो देवाः पितरोदे च पुत्राम् सर्वेभ्यो वत्पर्यताम् एताम् स्वदेवनम् जगदेवाथ एनादिविष्टदेव्या ये अन्तरिक्षपोषधीषु पशुः सहान्तः एकेणुत दे जगदमायोरस्मै शतमन्यान् मरी प्रणक्तो मृत्यो येषाम् प्रजायाहुतवानुयाजाहुतभागाहुतादश्च देवाः येषाम् वः पञ्च प्रतिशोभक्तास्तान्वो अस्मै तत्र शृणोमि आशानामाशापादेभ्यश्चतुर्भ्यो अमृतेभ्यः इदम् भूतस्याध्यक्षेभ्यो विधेमह य भजम् यहाशा तेनो निर्णृत्या पाशेभ्यो मञ्चलाम् होम्भवः अश्वामस्ता हविषा यजाम्यश्लो णस्वाहृतेन य आशा नामाशा बालस्तुरीयो देवस्वनश्लभूतमेह रक्षते स्वस्ति मात्रभूतमित्रेणो हस्तस्वस्तुभ्यो जगते पुरुषेभ्यः विश्वम् सुभूतम् सु विदत्तम् नोस्तो देवम् जनासो विदध महद्ब्रह्म भजिष्यति कत पृथिव्याम् नो दिविजेन प्राणन्ति वीरुधाः अन्तरिक्षा सांस्तामश्रान्तसदाय आस्थायामस्य भूतस्य विदुष्ट द्वेदसो नमाः यद्रोदशीरजमाने भूमिश्च निरक्षलम् आर्द्रम् ददत्य सर्वे वश्रोत्याः विश्वमन्यामभिमलन्यस्यामधिश्रलम् दिवे च विश्ववेदशे पृथिङ्गैः नमाः हिरण्यवर्णाश्च यः पावकायासु जातस्य विधाया शि याग्निङ्गद्भम् न धिरे सुवर्णास्तानः अपश्यम् शो न भवन्तो यासाम् राजावरुणो याति मध्ये सत्या अवपश्यम् जनानाम् याग्निम् गर्भम् न धिरे सुवर्णास्तानः अपश्यम् शो न भवन्तु यासाम् देवादिवन्ति भक्षैयान्तैके बहुधा िम् गर्भम् दधिरे सुवर्णास्तान आवश्यम् सो न भवन्तो शिवेन माचक्षूरावश्यतापः शिवयाः दन्वोपस्पृशतत्त्वचम् मे घृतस्तु दश्रुतयोस्तास्तानवश्यम् चो न भवन्तो इयम् मेलोन्मधो जाता मधो मधोरधिप्रजाना मधो मधस्कृधि जिह्वायाग्रे मधो मे जिह्वा मूले मधूलकम् एदहक्रतारो मम चित्तमुपायाधि मधोमन्मे निक्रमणम् मधोमन्मे परायणम् वाचावधमेधो मधोजातम् मधुसन्द्रजः मधोरश्मी मधूतरो मधुभान् मधूमत्तरः कामित्यलत्वम् वनाश्चामधो मती पहिद्वारितत्नु हे क्षुणाः कामविद्भिषे यथा माम् कामिन्यसो यथामन्नापघासाः यथावद्धन्दाक्षायणा हिरण्यम् शरानीकायसु मनस्यमानाः तर्ते वद्धाम्यायुषेवच्च शैवलार्य दीर्घायुत्वाय चारदाय नैनम् रक्षांसिनपिशाचा सहन्ते देवानामोदः प्रथमम् एतत् यो विभर्तिरा क्षायणम् हिरण्यम् स जीवेषु कृणुते दीर्घमायोः ीर्याणि इन्द्रदिवेन्द्रियाण्यधि धारयामो अस्मिन् दद्धक्षमाणश्वरद्धिरण्यम् समानाम् मासा मृतभृष्ट्वा वयम् संवत्सरस्य वयसापि इन्द्राश्वे देहास्तेनो मन्यन्नाः प्रथमकाण्डम् समाप्तम् अथ द्वितीयकाण्डम् ओेनस्तत्पश्चत्परमम् गुहायद्यत्र विश्वम् भवत्येन इदम् वर्ष्णीयमानाश्वर्मितोः अभ्यनोढ्राः प्रतद्वो जतस्य विद्वान् गन्धर्वो धाम पदमङ्गुहाय त्रीणि पदानीगुहाजस्त्रादि वेद वितस्मिता पिता सः पिताय नितासुतबन्धुधामाहानि वेदनानिष्मः यो देवानाम् नाम एक एव तम् संप्रष्टम् भवयन्ति सर्वाः परिद्यावाः पृथिवी दद्याः जपपाः तिष्ठे प्रथमाजारतस्य वाचवि भुवनेष्टा दास्युरेश नन्दे एषो अग्निः परिविश्वा भुवनान्यायमृतस्य तन्त्रम् विदलम् दृशेकम् यत्र देवामृतमानशालास्वधीरयन्ता दिव्योगम् धर्मो भुगवानस्य यस्वदीरेक एव नवश्यो वीवीड्याः तन्ता यो महि ब्रह्मणादिव्यदेव नमस्ते अस्तु जीविते दिनि स्पृष्टोजर्यत्वकमजातार सो दैव्यश्च ब्रणाद्यम् धर्वभुवनस्य वनस्पतिरेक एवमस्य सुसेवाः अनवत्याभिस्तमो यग्माभिरप्सरास्वपि गन्धर्वासीत् समुद्राः साम् सदनम् आहुर्यतस्तः चाः जयन्ति गन्धर्वम् से भ्यो बोधेवीर्णमयित्रेणोमि या मन्दास्तमीचीतचोक्षताः मामनो महाः राद्भ्यो जम् धर्मपत्नीभ्यो सराद्भ्यो करन्नवाः अलोयदपधापर्त्यभक्तवति सर्वदाः गणोषजम् सुभेदम् यथा सरसि आदङ्गा कुविदङ्गा शतय्याभेषजाीते तेषामथित्वमुत्तममाना श्रावमरोहोगणम् नीजेः कनन्त्यसूराश्रावमिदम् आहद तदा श्राव भेषजन्द दुरोगमनीषद उभयीकामुद्भरन्ति समुद्रादति भेषजम् तदा श्रावस्य भेषजन्द दुरोगमनीषवत् अनुस्राणमिदम् माह पृथिव्याध्युभृतम् कदा श्रावस्य षडन्माः भवन् नवकोषधशिवाः इन्द्रस्य अपर्हन्तु रक्षस आरात्रिशिष्टायिषवदन्तु रक्षसाः दीर्घायित्वाय विषरेष्यन्तो रक्षमाणास्तदैव मणिम् विष्कन्धदोषणम् जङ्गिणम् विभ्रमो वयम् जङ्गिणो जम्भाद्देशराद् निष्कन्धादभिषोचनात् मणिसहस्रवीर्य परेणः प्वा तु विश्वताः अयम् विष्कन्धम् सहतेजम्बाहे अत्रिणाः अयम् नाविश्वेरो जङ्गिणः प्वात् तम्भः देवैरत्वेन मणिराजङ्गिणेन मनोभुवा विष्कन्धम् सर्वा रक्षाम् श्रीव्यायामे सर सहामहे क्षणश्च माजङ्गिडश्च विष्कन्धादभिरक्षता अरण्यादन्याभिरतः कृष्या अन्यो रतेभ्यः कृत्या दोहि रयम् मणिरतो अथो सहस्वाञ्जङ्यणहायो इन्द्रजुषस्व प्रवहायाभ्याम् विवाह सुतश्च पदेशमधोश्चकारश्चारुर्मदाहाय इन्द्रजुषम् नव्यो न प्रणः प्रमधोः दियो अस्य सुतस्य स्वा आर्णोपत्वापदाः सुवाचोः अगो इन्द्रस्तु आशान्मित्रो वृत्रयो जतीर्न बिभेदमदम् मृगुर्नशासेशत्रोन्मदे सोमस्य आत्त्वा विशन्तु सुतान्द्रकृ कुक्षी चक्रेजुस्तेन्द्रजग्भि इन्द्रस्तनुप्रावोजम् वीर्याकारप्रथयवाणी वज्री अहम् न हिमम्बरपस्तदग्धप्रभक्षणा अभिनः पर्वतारा अहम् न किम् पर्वश्रिराणम् दत्तास्मै वज्रम् दक्षा बाश्वालेवना अञ्जः समुद्रमव जगमुराभा ृणीनतो मन्त्रियद्वये आचारकम् मघवाः दत्तमहन्देन समास्त्वार्गतवो वर्धयन्तीत्या सन्निव्येन दीनि नोदनेन विस्माभातिषष्टतत्सः ौभागाय माषन्नुपसत्तारो अग्ने ब्रह्माणस्तेज सहस्रन्धवान्ये त्वामग्ने वृणते ब्राह्मण इमे शिवोऽग्ने संवरणे भवानः सर्वनेः अभिमातिजित प्रायच्छन् ेणाग्ने संरभस्वमित्रेणाग्नेत्रधाय तस्व स जातानाम् मध्यमे विगम्योह अहो अधिसृधोद्यचित् धीरशङ्घाः विश्वार्यज्ञे दुरितास्मभ्यम् सहम् वृन्दा अयद््यष्टादेव जाता प्राणेक्षेत् सर्वान्मच्छपधा यश्च सा भक्नश्चपथो जान्या शपतश्च यः ब्रह्मा यन्मन्यशवात् सर्वम् सन्माधस्पदम् विमो मूलमवतम् मृध्युत्तरम् हस्रकाण्डेन हरेण पाहि विश्वताः परिमाम्बरे मे प्रजाम्बरेण पाहि यद्धनम् अनाहारिताहन्मानस्ता सप्तारवेदशमथो यः सुहार्तेन सह चक्षुर् मन्त्रस्य दुर्हार्द कृष्णेरपि गृणीमति उदगाताम् भगवती कृतौ नाम तारके वृक्षे त्रियस्ते मुञ्चतामधर्मम् वाचमुत्तमम् अभ्ययम् रात्रिक्षत्वपोः धर्मभिः कृत्वा यीः वीरुक्षे त्रियसन्नपक्षे त्रियमुच्छतौ बभ्रोरर्जुनकाण्डस्येवस्यते वीरक्षे त्रिजया झन्नपक्षे त्रिजमुच्छतो नमस्तेलाङ्गेभ्यो नीषाभ्यः वीरक्षे त्रिजया झन्नपक्षे त्रिजमुच्छतो नमः साक्षेभ्यो नमस्तेश्वेभ्यः नमः नमस्ते क्षेत्रस्य मदने वीरुक्षे त्रिजया झन्नपक्षे त्रिजमुच्छतो दश वृक्षमुञ्च मम वृक्षराज्ञाधिलम्परा अथो येन वनस्पते जीवानाम् लोकमुया आगातुगादयम् जीवानाम् राजमप्यगार अभूत्पुत्राणाम् पितारुणाम् च भगवत्तमः अधीतिरध्यागालयमधीजीवपुरागन् शतम् च भेषज सहस्र उत वीरुधाः देवास्ते चेतिमविदम् ब्रह्माण बुतवेधाः चेतिम् च विश्वे देवानि गन् भूम्यामधि यश्च तदेव तुभ्यम्